निखिलखेटी कदम्बवन वाटी सुष्पाकिपटली कोटीरचारुतरकोटि मणिकिरणकोटिकरञ्जितपदा पाटीरगन्धिकुचाटी कवित्वपरिपाटी मगाधिपसुता ोटी कुलदीक मुदार मुखवीटी सोपान दैवायन प्रभृतिशायुधत्रिदिवसोपानूलीचरण पापापः स्वमनुजापानुलेन जनता पापनोदनिपुणा दीपालया सुरभिधूपालका दुरितकोपादुदं चयतु माम् कूपाधिका शिखरि भूपालवंश मणिदीपायिता भगवते त्ततनुराणी लसत्प्रियकपाली सुखेलति भवा ज्ञाणी न भरा भराचरणधूली लसन् मुनिगणा पाणि भृतिश्रवसिताली दलं वहति याळी कक्षोभितिलका पाणीकरोतु मम काणी मनःस्वपदनाणीकसेवनविधौ का बालामृतां सुनिभफाल मना नितंब पलके। मरा कालामरा कुकुशली लोषण रवि जलद नीला कचे कलितली कदंब विपिने प्रनति विधातु विपिनेुध प्रणतिशीलाधदिराजतनया अम्बा अम्बावतीव सविडम्बा अलेन नवतुम्बा भवीण सविधा बिम्बाधरा विनकशम्बायुधा निकुरुम्बा कदम्ब विपिने अम्बा कुरङ्गमदजम्बालरुचिरिह लम्बालका दिश सुमे शम्बाहुलेय शशिबिम्बाभिराम भी मुखसम्बाधितस्तनभरा दासायमानसुमहासा कदम्बवनवासा पुसुम्भसुमनो मासा विपञ्चीकृतरासा विधूय मधुमासारगङ्गमधुरासारसूनततिभाषाभिरामतनुरासार शीतकरुणा मासा मणिप्रवरभाषा शिवा तिमिरमासा दयेदुपरतिम् शङ्काकरे वपुषि टङ्कालरक्तपुषि शङ्कादिपक्षिविषये त्वं कामनामयसि किं कारणम् हृदय पङ्कारि मेहि गिरिजा शङ्कानिलनिशितटङ्कायमानपदशङ्का समान सुमनो जंकारी भृंगत कालुपेत शशि शकमला जंभारी कुंभि पृथुकुंभापहा कुच संभा्य हलिक रम्भाकरेन्द्रकरदम्भापहोरुगति किम्भानुरञ्जितपदा श्यम्भाुदारपरिरम्भाङ्कुरत्पुलकदम्भानुरागपि सुना शम्भासुराभरणगुम्भा सदा दिशतु शुम्भासुरप्रहरण क्षायणी दनुज शिक्षा विधौ विकृत दीक्षा मनोहर गुणा दीक्षासीनो नटन दीक्षा विनोदमुख कक्षाध्वर प्रहरण दीक्षा विधेहि मयि दक्ष स्वकीय जन पक्ष विपक्ष विमुखी यक्षे सेवित निराक्षेपशक्ति जयलक्ष्म्यावधानकन मन्दारुलोकवरसन्दायिनि विमलकुन्दावदातरदना वृन्दारवृन्द मणिवृन्दारविन्द मकरन्दाभिषिक्तचरणा मन्दा निराकलित मन्दारदामभिरमन्दाभिराममपुट मन्दाकिनीजवनबिन्दानवाचमरविन्दासना दिशतु मे